श्रीमद्भागवत् महापुराणं नमस्कन्धम् अथ चतुर्दशोऽध्यायः चन्द्रवंशकावर्णन् शेषोकुवाच अथात् श्रूयतां राजन्वंशोमस्य पावनः यस्मिन्नैनादयो भूपाकृतयन्ते पुण्यकीर्तयः सहस्रशेषपुंसो नाभीषदसरोरुहात् जातस्यासे सुतो अत्रे पित्रे गुणैः तस्य दिग्भो भवत्पुत्र सोमो मृतमय किल विप्रौ सद्यो दुग्गुणानां ब्रह्मणा कल्पितः पतिः सोऽयदन्द्राजसूयेन विजित्य भुवनत्रयम् पत्नीं बृहस्पतिर्दर्पात् तारां नामा हरद्बलात् यदा स देवगुरुणा याचितो भीक्ष्मसोमदात् नाचयज तत्कृते यज्ञे सुरतानवं विग्रह शुक्रो बृहस्पते द्वेषाद् अगृहीतशासुरोपं हरो गुरुश्रितं स्नेहात् सर्वभूतगुणावृतः सर्वदेव गणोपेतो महेन्द्रो गुरुमन्वयात् सुरासुरविनाशो भूं समरस्तारकामयः निवेदितोथा गिरसा सोमं निर्भस्य विश्वके तारांशभरते प्रायश्चन्तत्नीमवैत्पतिः त्यजु दुष्प्रज्ञै मच्छेत्रादाहितं परैः नाहं तां भस्मसात्कुर्यां स्त्रियं सान्तानिकसती तत्याजपीडिता ताराकुमारं कनकप्रभं श्रिहा माङ्गिरसश्चक्रे कुमारे सोमये वच ममायं न त्ववेत्युच्चैतस्मिन् विवदमानयोः पप्रक्षु ऋषियो देवा नैवोचे पीडिता तु सा कुमारो मातरं प्राह कुपितो लीकुलज्जया किं नवोचस्य सद्वृत्ते आत्मा वद्यं वदाशु मे ब्रह्मा ताम्रह आहूय समप्राक्षी च सात्वयन् सोमस्तेत्याह सनकै सोमस्तं तावदग्रहीत तस्यात्मयो नीरकृतबुधेत्यभिधिधां नृप बुद्ध्या गम्भीर्यायेन पुत्रे पाडो दुरादम् ततः पुरुरवा जज्ञे इलायां च उदासितः तस्य रूप गुणौदार्य शीलद्रविण विक्रमान् श्रुतोर्वशेन्द्रभवने गीयमानां सुरर्षिणाम् तदन्तिकम् उपेयाय देवी स्मरसरार्जिता मित्रावरुणयो शापान् आपन्ना नरलोककां निशम्य पुरुषश्रेष्ठं कन्दर्पम् इव रूपिणं धितिं विष्टभ्यललना उपत्तस्थे तदन्तिके सतां विलोक्य निपतिर्हर्षेणोत्फुल्लोचनः वासशल्लक्ष्म्यावाच देवीं हृष्टतनूरुह राजोवाच स्वागतं ते वरारोहे आसतां करवामकिं किं संनममस्य मया साकं रतिनु शाश्वतीशमाह उर्वश्चवाच कस्यास्त्वयि सज्जेत मनो सुन्दर यदङ्गान्तरमासाद्य चवते हरिदंशया एतावरणकौराजन्यासौरक्षस्वमानदं खण्डस्ये भवत्वा साकं श्लाघ्यस्त्रीणां वरस्मितः घृतं मे वीरभक्षं श्यान्येक्षेत्यान्यत्र मेथुनात् विवाससंतन्तथेति प्रतिपेदे महामनाः अहोरूपमहो भावो नरलोकमिवोहनं को न सेवेतमनुजो देवीं त्वां क्षेमागतां तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः रेमे सुरविहारेषु कामं चैतृथादिषु ब्रह्माणस्त्या देव्या पद्मकिञ्जलकां गन्धयाम् तन्मुखामोदमुषितो मुविदेहं हरं गुणनान्भून्